मद्भागवत्महापुराणम् एकादशस्कन्धपञ्चमोऽध्यायः नमस्ते वासुदेवाय नमः शङ्कर्षणाय च प्रब्धुं नायानिरुद्धाय तुभ्यं भगवते नमः नारायणाय ऋषे पुरुषाय महात्मने विश्वेश्वराय विश्वाय सर्वभूतात्मने नमः इति द्वापर उर्वी स स्तुवन्ति जगदीश्वरं नानातन्त्रविधानेन कलावपि यथा शृणु कृष्णवर्णं तु चा कृष्णं शाङ्गोपाङ्गासपार्षदं यज्ञै सङ्कर्तनप्रायै यजन्ते धेयं सुमेधसः ध्येयं सदा परीभग्नमभ्येष्टोहम् तीर्थस्पदं शिवविरुचिं विरिञ्चिनूतं शरण्यं भत्यार्तिहं प्रणतपालभवाब्धिपोतं वन्दे महापुरत ते चरणविन्दं त्यक्त्वा सुदुस्तजसुरेप्सितराज्यलक्ष्मीधर्मेष्ट आर्यवचसा यदगादरण्यम् मायामृगं दयितयेप्सितमन्वधावन् वन्दे महापुरस्ते चरनारविन्दम् एवं युगानुरूपं पाभ्यां भगवान् युगुवर्तिभि मनुजैरिच्यते राजन् श्रेयसामीश्वरो हरिः कलिं सभाजयन्त्यार्यां गुणज्ञाः सारभागिनः यत्र सङ्कीर्तनेनैव सर्वस्वार्थोऽभिलभ्यते न परमोलाभो देहिनां भ्राम्यतामिह यतो विन्देत परमां शान्तिं नश्यति संस्कृतिः कृतादिशो प्रजा राजन् कलाविच्छन्ति सम्भवम् खलौ खलौ भविष्यन्ति नारायणपरायणाः क्वचित् क्वचिन्महाराज द्रमुणेशो च भूरिश ताम्रपण् नदी यत्र कृतमालापयश्विनी कावेरी च महापुण्याप्रतीची च महानदी ये पिबन्ति जलं तासां मनुजा मनुजेश्वर प्रायो भक्ता भगवती वासुदेवे मलाशयाः देवर्षिभूता तृणां पितॄणां न किं करो नायमृणीं च राजन् सर्वात्मनाय शरणं शरण्यं गतो मुकुन्दं परिहृत्यकर्तम् सपादमूलं भजतः प्रियस्य त्यक्तान्यभावस्य हरि परेश विकर्म कथञ्चिन्धुनोति सर्वं हृदि सन्निवेष्ट नारदुवाच धर्मान् भागवतानित्थं श्रुत्वाथ मिथिलेश्वरः जायन्ते यान्मनिन्प्रेत सोपाध्यायो ह्य पूजयत ततोऽन्तर्दधिरे सिद्धा सर्वलोकस्य पश्यतः राजा धर्मान्पातिष्ठन्नवाप परमां गतिम् महाभाग महाभागधर्मान् भागवता श्रुतान् आश्रितश्रद्धया युक्तो निषङ्गो याचसे परं युवयो करु दम्पत्यो यशसा पूरितं जगन् पुत्रतामगमं यद्वां भगवानेश्वरो हरिः दर्शनालिङ्गनालापये सनाशनभोजने आत्मा वां पावित कृष्णे पुत्रस्नेहं प्रकुर्वतोह वैरेण य निपन्तय शिशुपालपौण्ड्रशाल्वादयो गतिविलासविलोकनाद्यै ध्यायन्त्याकृतधिय शयनाशनादौ तत्साम्यमां पुरनुरक्तधियां पुनः किम् मापत्यबुद्धे म कृथा कृष्णे सर्वात्मनेश्वरे मायामनुष्यभावेन गुणैश्वर्ये परिव्यये भो भारासुराजनन्यो हतं हन्तवे गुप्तये सताम् अवतीर्णस्य अनुवृत्त्यै यशो वितन्यते शेषो एतच्छ्रुत्वा महाभागो वसुदेवोऽति विस्मितः देवकी च महाभागा जहतुर्मोहमात्मनः इतिहासमिमं पुण्यं धार्येद्य समाहितः स विधूयेह समलं कल्पते इति महापुराणे पारमंशां चैतायाम् एकादश स्कन्दे